सानुशरासन रजता ञ्जिनीकृतपन्नगेश्वरम् अच्युदाननसायकं क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः आललोचनजातपावकदग्धमन्मथ विग्रहं भस्मदिग्धकळे वरं भवनाशनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः रणमुख्यचर्म मनोहरं तङ्कजासन पद्मलोचन पूजिताङ्क्रिसरोरुहं देवसिन्धुतरङ्गशीकर सिक्तशुभ्रजटाधरं चन्द्रशेखरमाश्रये मम किं करिष्यति राजसखं भगाक्षकरं भुजङ्गविभूषणं शैलराजसुता परिष्कृत चारुवाम परश्वधारिणं मृगधारिणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः कुण्डलीकृतकुण्डलेश्वरकुण्डलं वृषवाहनं नारदादिमुनीश्वरस्तुत वैभवं भुवनेश्वरम् अंधकाक्रितामर पाद शमनाक चंद्रशेखर मम किति वै य जं भवरोगिणाम् अखिलापदामपहारिणम् दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम् भोक्तिमुक्तिफलप्रदं सकलाख सङ्घनिबर्गणम् चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः सलम् अर्चितं निधिमक्षयं हरिदंबरं। सर्वभूतपतिं परात्परं। अप्रमेयं अनुत्तमं सोमवारि नभोताश न सोमपानिलकाकृतिम् चन्द्रशेखरमाश्रये मम किं करिष्यति त्वयमः विश्वसृष्टिविधायिनं पुनरेव पालन तत्परं संहरन्तमपि प्रपञ्चम् अशेषलोकनिवासिनं क्रीडयन्तमहर्निशं गणनाथयूतसमन्वितम् चंद्रशेखर मम किति ्युभीतमृकण्डसूनुकृतस्तवं शिवसन्निधौ यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् पूर्णमायुररोगिताम् अखिलार्थसम्पदपादरात् चन्द्रशेखर तस्य ददाति मुक्तिं शेखर एव तस्य ददाति मूर्तिम यत्नतः चन्द्रशेखर एव तस्य ददातिमूर्तिम यत्नतः